भगवद्गीता चाप्टर् त्री वर्षस् वन् टु टेन् अध तृतीयोऽध्यायः अर्जुन उवाजायसि ये कर्मणस्ते मदा बुद्धिर्जनार्दना सत्यं कर्मणि घोरे मान्य योजयसि केशव मित्रेणेव वाच्येन बुद्धिं मोकय शीवमे तदेकम् वदनिश्चित्य येन श्रेययोगमाप्नुयाम् श्रीभगवानुवाद लोगेऽस्मिन् द्युविधानिष्ठा पुरा प्रोक्तामयानक ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिनाम् न कर्मणामनारम्भास्नैष्कर्म्यम्बुरुषोऽश्नु न च संन्यसनादेव सिद्धिं समधिगच्छति न कश्चित् क्षणमभिदुति तस्य कर्म कृ अयदेश्यवशः कर्म सर्वप्रसुविजैर्गुणैः संयम्य य आस्ते मनसात्मर इन्द्रिया निमूढात्मा मिथ्याचारश्च उच्यते यस् इन्द्रियाणि मनसा नियम्यारभदे अर्जुन कर्मेन्द्रियैः कर्मयोगमतस्तत्स विशिष्यते नियतम् गुरुकर्म त्वम् कर्म ज्यायोग्य कर्मणः शरीरयात्राभि जगे न प्रसिद्धेद कर्मणः यस्नार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्देयमुक्तसङ्गमाचर सः यस्या प्रजा दृष्ट्वा पुरो वाचप्रजापतिः ेषवोक्ति कदामदो भगवद्गीता चाप्टर् त्री वर्षस् लेवन्त् ट्वेन्टि देवान् भावयदानेन ते देवा भावयन्द्वः परस्परं भावयन्तः श्रेयत्परमवाप्स्यथा शिष्टान् भोगान् शिवो देवादास्यन्ते यज्ञपाविदाः तैर्दत्ता न प्रदायैभ्यो यो गुन्देस्तेन एव सः यज्ञशिष्टाशिनः सन्दो मुच्यन्ते सर्वीर्विषैः भुञ्जदे ते त्वकं ये पचन्त्यात्मकारणात् अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञाद्भवति पर्जन्यो यज्ञकर्मसमुद्भवः कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्मनित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रम् नानुवर्तयदीहयः अकायुरिन्द्रिया रामो मोकं पार्थस जीवति यत्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः आत्मन्येव कार्यं न विद्यते नैव तस्य न चास्य सर्वभूतेषु कश्चिदर्तव्यपाश्रयः तस्मादसक्तः कार्यं कर्मसमाचर असक्तो ह्याचरं कर्म लोगसङ्ग्रहमेवाभि पश्यन् कर्तुमर्हसि भगवद्गीता चाप्टर् त्रि वर्षस् ट्वेण्टि वन् टु तर्टि यद्यदाचरति श्रेष्ठस्तत्त देवेतरो जनः स यत्प्रमाणं गुरुदे लोगस्तदनुवर्तते न मे पार्थास्ति कर्तव्यं त्रिषु किञ्चन नानवाप्तमवाप्तव्यं वर्तये व च कर्मणि यदि ह्यकन्नवर्तेयं जादुकर्मण्यतन्त्रितः मम वर्त्मानुवर्तन्ते मनुष्यात् पार्थसर्वशः उत्सीदे युरिमे लोगा न कुर्यां कर्म चेदहं सङ्गरस्य च कर्ता स्यामुपन्यामि मा प्रजाः सक्ता कर्मण्यविद्वांसो यथा कुर्वन्ति भारः कुर्याद्विद्वांस्तदा सक्तश्चिकीर्षुर्लोकसङ्ग्रहम् न बुद्धिभेदञ्जनयेदज्ञानां जोषये जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणधर्मसु का न कृष्णविदो मन्दाङ्कृष्णविन्न विचालयेत् मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः भगवद्गीता चाप्टर् त्रि वर्ष थर्टि वन् टु फोर्टि त्रि ये मे मदमिदनित्यमनुतिष्ठन्ति मानवाः श्रद्धावन्दो न सूयन्दो मुच्यन्ते दे देविकर्मभिः ये त्वे ददव्यसूयन्दो नानुतिष्ठन्ति मे मदम् सर्वज्ञानविमूढांस्तान् विद्धिनष्टान् चेदसः सदृशञ्चेष्टदे स्वस्याप्रकृतिर्ज्ञानवानवि प्रकृतिज्ञा विभोदानि निग्रह किं करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नवशमागश्चेत्तौ ह्यस्य परिबन्धिनौ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठिदात् स्वधर्मे निधनं श्रेयःपरधर्मो भयावभव वा वा वा वा। अर्जुनौ वाच अधेन प्रयुक्तोऽयं पापं चरधि पूरुषः अनिच्छिन्नविवाष्णेयबलादिवनियोजितः श्रीभगवानुवाच कामयेशक्रोध एष रजो गुणः समुद्भवः महाशनो महापाप्मा वेद्येनमिह वैरिणं धूमेनावृयदेवन्यर्यदादर्शो मलेन च यदोऽल्बेनावृतो गर्भस्तदा तेनेदमावृतम् आवृतं ज्ञानमेधेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेयतु स्फूरेणानलेन च इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ये दैर्विमोहत्येष ज्ञानमावृत्य देहिनम् तस्मात्त्वमिन्द्रियाण्यादौ नियम्यभरदर्शभ आत्मानम् इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धिर्यो बुद्धे परदस्तु सः एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना यदि शत्रुं महाबाहोकामरुबन्धुरासदम् ओं तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु कर्मयोगो नाम तृतीयोऽध्यायः